हरिश्रीनिधनम् गीर्वणः पा हीनः सूतम् गिर्वणः पा हिनः सुताम् मधोर्दार भेराहो ज्यासे इन्द्र स्वादा तावा एत् या आशा औहो वा हरी ईश्रीः यशस्ौहा Yesho hao, yesho hao, yesho hao, varcho hao, varcho hao, varcho hao, aas bin hai, aas bin hai, तवेदिन्द्रा वामम् वासु त्वम् पूष्यसि मध्या आमम् सत्रा विश्वस्य परमस्य राजसे न किष्ट्वा रुण्वते ए पुनानसोऽ माधारय पोऽवसानर्षसि आरात्मा दायोनी ऋतस्यसि इदसि उत्सो दे एव हिरण्ययः उत्सोदे एवो हिरण्यायाः उत्सोदे एवो हिरण्ययः दुहानौ धर्दिव्यं मधुप्रियं रत्नम् साधा <coughs> स्थामा सादात् आपृच्छ्यम् धर्णम् वा आजियक्षा आसी प्रधौ ऊतो विचक्षणः नृबिध ऊत विचक्षाण नुब्ध ऊत विचक्षण हौ यशोहशोह यशोहा वर्च वर्चोह स्वचोहा आस्मिन्हाय आस्मिन्हाय आस्मिन्हा ह आयुर्विश्वायुर्विश्वम् वि श्यामायुरसी इ महि प्राजाम् त्वष्टारादनिधे ययस्मे शातञ्जीवेम शरदो वयन्ते